नारायणीयं दशकं सिक्स्टीन् मीटर्वसन्ततिलकं दक्षो विरिञ्चतनयोधमनोस्तनूजां लब्ध्वा प्रसूदिमिह षोडशचापकन्याः धर्मे त्रयोदश ददौ पिदृषु स्वथां च स्वाखां हविर्भुजि सतिम् गिरिष्ये त्वदंशे मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं नारायणं नरसखं महितानुभावं यज्जन्मनि प्रमुदिधा कृततूर्यघोषाः पुष्पोत्करान् प्रववृषुर्नुनुवुः सुरौकाः दैत्यं सहस्रकवचं कवचैस्परीदम् साहस्रवत्सरतपःसमराभिलव्यैः पर्यायनिर्मिततपःसमरौ भवन्तौ शिष्टैककङ्कणममुन्यहतां सलीलम् अन्वाचरनुपधिष्यन्नपि मोक्षधर्मम् त्वां भ्रातृमान् बदरिकाश्रममध्यवात्सीः शक्रोद्धते शमतपो बलनिस्सहात्मा दिव्याङ्गना परिवृतं प्रजिकायमारं कामो वसन्तमलयानिलबन्धुशाली कान्दाकडाक्षविशिखैर्विकसद्विलासैः विद्यन्मुहुर्मुहुरकम्बमुदीक्ष्य च त्वां भीदस्त्वयाध जगदे मृदुः सभाजा भित्यालमङ्गजवसन्दसुराङ्गनावो मन्मानसन्त्विहजुषध्वमिति ब्रुवाणः त्वं विस्मयेन परितस् तु वदामधैषाम् प्रादर्शय स्वपरिचारककादराक्षीः सम्मोहनाय मिलिता मदनादयस्ते त्वद्दासिता परिमलै किल मोहमापुः दत्ताम् सर्वस्वर्वसिगर्वशमनीं पुनरुर्वशीं ताम् दृष्टोर्वशीं तव कथां च निशम्य शक्रः पर्याकुलो जनि भवन्महिमावमर्षाद् एवम् प्रशान्तरमणीय वरदकृष्णतनुस्त्वमेव दक्षस्तु धातुरधिलालनया रजोऽन्धोत्नात्याधृतस्त्वयि च कष्टमशान्तिरासीद येन व्यरुन्धस भवत्तनुमेव सर्वं यज्ञे च वैरपिशुने स्वसुतां व्यमानीत कृद्धेशमर्दिदमखः सदु कृतशीर्षो देवप्रसादिदखरा दधलब्धजीवः त्वत्पूरितक्रदु वरः पुनरापशान्तिं सत्त्वं प्रशान्तिकरपाहि मरुत्पुरेश ओम सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द Govinda the...